हरि ओम् श्रीसीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकोनषष्ठीतमः सर्गः प्रहस्तस्य वधेन दुःखितस्य रावणस्य युद्धाय प्रस्थानम् तेन सहागतानां वीराणां परिचयो रावणस्य प्रहारेण सुग्रीवस्य मूर्छा लक्ष्मणस्य रणभूमौनम् आगमनम् हनुमद् रावणयोर्मिष स्थल प्रहारो रावण कर्तृकम् नीलस्य विसन्यत्वम् शक्तिप्रहारेण लक्ष्मणस्य मूर्छा सुसन्यता च श्रीरामात् पराजितस्य रावणस्य लङ्कायाम् प्रवेशः तस्मिन् हस्ते राक्षस सैन्यपाले प्लवङ्गमानाम् युद्धे भीमायुधम् सागरवेगतुल्यम् विदुध्रुवे राक्षसराजसैन्यम् गत्वा तु रक्षोऽधिपते शशन्त सेनापतिम् पावकसोऽनुशस्तम् तच्चापि तेषाम् वचनम् निशम्य रक्षोऽधिपक्रोधवशम् जगामय सङ्ख्ये प्रहस्तम् निहतम् निशम्य क्रोधार्दितम् चोकपरीतचेता च तान् राक्षसयूथ मुख्याम् इन्द्रो यथा निर्जलयूथ मुख्याम् नावज्ञा रिपवे कार्या ऐरिन्द्र बलसादनः सुदित सैन्यपालो सामुयात्र शकुञ्जरः स्वहं रिपुविनाशाय विजयाय विचारयम् स्वयमेव गमिष्यामि ऋणशेषम् तदद्भुतम् अद्य तत्त्वनरामेकम् रामम् च स लक्ष्मणम् निर्दयिष्यामि बाणोघै वनम् दीप्तै राभिः अद्य सन्तर्पयिष्यामि पृथिवीम् कपि शोणितैः स्व एवमुक्त्वा प्रकाशम् थं तुरङ्गोत्तमराजयुक्तम् प्रकाशमानं वपुषा ज्वलन्तम् समारुरोहामरराजशत्रु सशङ्खभेरी पणवप्रमादे अस्फोटितैः क्षीडितसिंहनादे पुण्येस्तवैश्चापि सत्सुपूज्यमानः तदा ययो राक्षसराजमुख सशैलजमूत निकाशरूपै माता शनैः पावकदीप्तनेत्रै बभोवृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्रैवामरेषु ततो नगर्या सहसा महोजय निष्क्रम्य तद्वानरसैन्यमुग्रम् महर्ण्य वा भ्रस्तनिकम् ददर्शय मुद्यतम् पादपशैलस्तम् तद्राक्षसा नैकमच्छलोक्य रामो भुजगेन्द्र वा विभीषणम् चत्रभृताम् वरिष्ठम् उवाच ते कस्येदमक्षोभ्यम् अभीरुजुष्टम् सैन्यम् महेन्द्रोपमनागजुष्टम् ततस्तु रामस्य निशम्य वाक्यम् विभीषणशक्रमान वीर्य चशंस रामस्य बलप्रवेकम् महात्मनाम् राक्षसपुङ्गवानाम् योऽसु गजस्कन्दगतो महात्म नवोदितार्कोपमताम््रवक्त्र सङ्कम्पयन्नागशिरोऽभ्युपैति झकम् प्रणम्पेन्म वैहि राजन् योऽसो रथस्थो मृगराजकेतु धुन्वन्धनु चक्रधनु प्रकाशम् कलीव भात्युग्रविवृत्तद्रष्ट्रजिन्नाम वरप्रधान यश्चैष विन्ध्यायत महेन्द्र कल्पो धन्वीर सोति रथोऽतिवीर विस्फारयन् चापमतुल्यमानम् नानापिकायोतिविरुद्धकाय योऽसौ न वार्को दिसाम्रचक्षु आरुह्य घण्टान्निनदप्रवप्रणादम् गजम् खरम् गर्जति वै महोदरो नाम स एष वीर योऽसौ हयम् काञ्चन चित्रभाण्डम् आरुह्य सन्ध्याभ्रगिरिप्रकाशम् प्राशंसमुद्यम्य मरीचिनद्धम् पिशाच एषो शनितुल्यवेग यश्चैष शूलम् निशितम् प्रगृह्य विद्युत्प्रभम् किङ्करवज्रवेगम् पुरुषेन्द्रमासाय शशी प्रकाशम् आयाति योऽसौ त्रिशिरायशस्वी असौ च जीमूत निकाच रूप कुम्भ पृथिवूढ सुजात वृक्षाय समाहितः पन्नगराजकेतो विस्फारयन् याति धनुर्विधन्वन् यच्छै च दितं स धूमम् परिघम् प्रगृह्य रक्षो बलकेतु भूतो योऽसो निकुम्भोऽद्भुतघोरकर्मा यश्चै च चापशिशिरोधिम् पताकिनम् पावकदीप्तरूपम् रथम् समासाय विभात्य द्रग्रौ नरान्तकोशो नगशृङ्गयोधि यश्च नानाविधघोररूपै व्याघोष्ट नागेन्द्रमुर भूतैर्वृतो भाति योसो योतो सुराणा दर्पयन्त यत्रैतदिन्दु प्रतिमं विभति छत्रं स्थितं सूक्ष्मशलैकमग्र्यम् अत्रै च रक्षोऽधिपतिर्महात्मा भूतैर्वृतो रुद्रैव बभाति असौ किरीटि चलकुण्डरास्यो नगेन्द्रविन्द्योपमभीमकाय भयेन्द्रवैव स्वदर्पहन्त रक्षोऽधिप सूर्यैवा बभाति पत्योवाच ततो रामो विभीषणम् ऋन्दमः अहो रावणो राक्षसेश्वरः आदित्य इव दुष्प्रेक्ष्यो रश्मेभिर्भाति रावणः नव्यक्तं व्यक्तम् लक्ष्येह्यस्य रूपम् तेजः समावृतम् देव दानववीराणाम् वपुर्नैवं विधम् भवेत् यादृशं राक्षसेन्द्रस्य वपुरे तद्विराजते सर्वे पर्वतसङ्काशात् सर्वे पर्वत योधि सर्वे दीप्ता योधा तस् महात्म विभाति रक्षो राजीप्त भीम दर्शन भूत परिवृत तीक्षण देह वृद्धि पापात्मा, मम दृष्टि पथंगत अदोक्षा ीताहरणसम्भवम् एवम् भूत्वा ततो धनुरादाय वीर्यवाम् लक्ष्मणानु च तस्थो समुद्धृत्य सर्वतमम् ततस्त रक्षोऽधिपतेर्महात्मा रक्षासितान्यः महाबलानि द्वारिषु चर्या घृ गोकुरेषु सुनिरुताधिष्ठत निर्विशङ्काय इहागतं मां सहितं भवद्भिः वनोकसच्चिद्रमिदं द्रमिदं शून्यां पुरीं दुप्रसां प्रमथ्य प्रदर्शयेहुं समेताय विसर्गयित्वा शचिवान् सतस्तान् गते सुरक्ष सु यथा नियोगम् यद्वानरसागरोघम् महाजष पूर्णमिवर्णग्वौघम् तम् आपतम् तम् सहसा समीक्ष्य दित्तेषु चापम् युधि राक्षसेन्द्रम् महत्तमुत्पाट्य महीधराग्रम् रुद्रावक्षोऽधिपतिम् हरीश तच्छैर प्रगृह्य चिक्षेपनिषचराय तमापतन्तं सहसा समीक्ष्य चिच्छेदबाण्डे तपनीय पुङ्खे तस्मिन् प्रवृद्धो तमसानुभुक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम् महाहि कल्पं शर्मन्तगाभम् समादधे राक्षसलोकनाथ स तं गृहीत्वा जलनप्रकाशं। वेगम् सविस्फुर्लिङ्गम् जलन प्रकाशम् बाणम्बेन्द्राशनि तुल्य वेगम् चिक्षेप सुग्रीव गुहेरिता क्रौञ्चमिवोऽग्रशक्ति स सायकातो विपरीत चेता पूजन् पृथिव्याम् निपपात वीर तम् वीक्ष्य भूमौ पतितम् वितन्यम् नैदुप्रवृष्टा युधिया तु धाना ततो गवाक्षो गवयः सुझेण स्वधर्ष भो ज्योतिमुखो शैलान्तमुत्पाट्य विधकाय प्रदुद्रूतं प्रतिराक्षसेन्द्रं तेषां प्रहारान् स चकारमोघां रक्षोऽधिपो बाणशतैश्चिताग्रैः तान् वानरेन्द्रान्पि बाणजालै बिभेदजाम्भूनदचित्रपुङ्खैरेन्द्राय श्रीदशा भिन्नानि पेतुर्भुवि भीमताया ततस्तु तद्वा नरसैन्यमुग्रम् प्रच्छादयामासबाणजालै से वध्यमाना पतिता च वीरा नानद्यमाना भैशल्यवीदः शाखामृगा रावणसायका सा जग् शरणम् स्मरामम् ततो महात्मा स धनुर्धनुष्मात् आदाय राम स सा जगाम संलक्ष्मणे प्राञ्जलिरभ्युपेत्य उवाच रामम् परमार्थयुक्तम् काममार्य सुपर्याप्तो वधायास्य दुरात्म विधमिष्याम्यहं चैतम् अनुजानीहि माम् विभो तमब्रवीन् महातेजा रामस्य च पराक्रमः गच्छ यत्न परश्चापि भवालक्ष्मणसंयोगे रावणो हि महावीर्यो रणेभूतपराक्रमः त्रैलोक्येनापि संवृद्धो दुष्प्रसयो न संशयः तस्य छिद्राणि मार्गस्व स्वच्छिद्राणि च रक्षय चक्षुषाय धनुषात्मानम् गोपाय स्व समाहितः राघवस्यैव च श्रुत्वा सम्परिष्वद्य अभिवाद्य च रामाय ययो सोमै त्रिराघवे सरावणं वारणहस्त बाहुम् ददर्श भीमोद्य स्वच्छादयन्तं शरवृष्टिजालै तान्वान राम् भिन्न विकीर्ण देहान् तम् आलोक्य महातेजाय हनुमान् निवार्य शरजालानि विद्युद्व श्रवणम् कथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम् त्रासयन् हनुमान् वाक्यमब्रवीत् देव दानव गन्धर्वै यक्षैश्च सह राक्षसै अवध्यत्तं त्वया प्राप्तम् वानरेभ्यः स्तु ते भयम् एष मे दक्षिणो बाहु पञ्चशाख समुद्यतः विधमयिष्यति ते रेः भूतात्मानं चिरोषितं श्रुत्वा हनुमतो वाक्यम् रावणो भीम विक्रमः संरक्त नयन क्रोधात् इदं वचनमब्रवीत् क्षिप्रम् प्रहर निःशङ्कम् स्थिराम् कीर्तिम् वप्नुहि ततः त्वाम् न्यास विक्रान्तम् रावणस्य वच श्रुत्वा वायुसूनुर्वचो ब्रवीत् प्रातं हि पूर्वम् अक्षम् तव सुतम् स्मरे एवम् उक्तो महतेजाय रावणो राक्षसेश्वर आजघानानिरसुतम् तलेनो रसि वीर्यवान् सलाभि हतसेन चालय च मुहुमुहुः स्थितो मुहूर्तम् तेजस्वी सैजम् कृत्वा महामतिः आजघानय च लेनैव मदद्विषम् ततश्च तेनाभ्यतो वानरेण महात्मना दशग्रीव समाधूतो यथा भूमि तले चलः सङ्ग्रामे तम् तथा दृष्ट्वा रावणम् तलताडितम् ऋषयो वानरा सिद्धा ने अथाश्वस्य मारुतेर रावणो वाक्यम् अब्रवीत् साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः रावणेनैव मुक्तस्तु मारुतीर्वाक्यमब्रवीत् दिग्धस्तु मम वीर्यस्य यत् तम् जीवसि रावण सकृतु प्ररेदानीम् निर्बुद्धे किम् विकथसे ततः स्वाम् मुष्टि नैष्यति यमक्षयम् ततो मारुतिवाक्येन कोपस्तस्य प्रजज्वले स्ववरक्तनयनो यत्नान् मुष्टिम् आवृत्य दक्षिणम् पासयामासुवेगेन वानरो रतिवीर्यवान् हनुमान् रक्षसि व्यूढे सञ्चचार तदा दृष्ट्वा हनुमन्तम् अबलम् रथे नाति रथशीघ्रम् नीलं प्रति समभ्यग राक्षसाम् अधिपतिः दशग्रीव प्रतापवान् पन्नगपतिमय भीमै परमर्माभियामास नीलं हरि च स चरोगः समायस्तु नीलो हरि च मोपतिः करेणैकेन शैलाग्रम् रक्षोऽधिपतिः श्रूयत् हनुमानपि तेजस्वी समाश्वस्तु महात्मनः विपरीक्षमाणो युद्धेप्सु स्वरोषम् इदमब्रवीत् नीलेन स संयुक्तम् रावणम् राक्षसेश्वरम् अन्येन युद्धमानस्य न युक्तम् अभिधावनम् रावणोऽ महतेजाय तं शृङ्गम् च तभीचरे अजघान सुतीक्ष्णाग्रे तद्विकीर्णम् पपातः तद्विकीर्णम् गिरे शृङ्गम् दृष्टा हरिचमोपतिः कालाग्नेरिवज्वाल कोपेन परवीरः शोचकर्णः द्रुमान् चालान् चूता चापि सुपुल्पिताम् अज्ञाश्च विविधान् वृक्षान् नीलश्चिक्षेपसंयुगे स्वस्थान् वृक्षान् समासाद्य पतिचिच्छेद रावणः अभ्य वर्षश्च घोरेण शरवर्षेण पावकिम् अभिवृष्टः शरोघेण मेघेनैव महाचलः ह्रस्तं कृत्वा ततो रूपम् ध्वजाग्रे निपपातः पावकात्मजमारोक्य द्वयाग्रे समवस्थितम् जज्ज्वाल रावण क्रोधात् ततो नीलो ननाद च ध्वयाग्रे धनुजश्चाग्रे क्रीटाग्रे च तं हरिम् लक्ष्मणोऽथ हनुमोमा च पि सुविस्मितः रावणोऽपि महातेजा कपिलाघव विस्मितः अस्रमाहारयामास दीप्तमाग्नेयमद्भुतं तत ते च कृषुर्हृष्टा लब्धलक्षः प्लवङ्गमः नील राघव सम्भ्रान्तम् दृष्ट्वा रावण माघवे वानराणां संरब्धौ रावण सदा सम्भ्रमाविष्टहृदयो न किञ्चित् प्रत्यपद्यत आग्नेयेनापि संयुक्तम् गृहीत्वा रावणशरम् ध्वजीर्ष स्थितम् नीलम् उदैक्षतः निशाचरः ततो ब्रवीन् महतेजा रावणो कपेला कपिलाघवयुक्तोऽसि माय परयासः जीवितं खलु रक्षस्व यदि शक्तो शिवानरः तानि तान्यात्मरूपाणि सृजसि त्वम् अनेकसहे तथापि सां मया मुक्तः सायकोऽस्त्र जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति एवम् उक्त्वा महाबाहु रावणो राक्षसेश्वर है सन्धाय बाणमस्त्रेण चमोपतिं ताडयेत् सोऽस्रमुक्तेन बाणेन नीलो वक्षसि ताडितः निर्दह्यमान ससः स्वतः महीतले पितृमाहात्मसंयोगात् आत्मनः चापि तेजसः जानुभ्याम् अपतद्भूमौ न तु प्राणैर्वियुज्यते विसन्यम् वानरं धृष्ट्वा दशग्रीवोरणोत्सकः रथेनाम्बोधनादेन सौमित्रैमभिदु द्रुवे आसाध्य ऋणमध्ये तम् वारयित्वा सितो जलम् धनुर्विस्फारयामास राक्षसेन्द्रः प्रतापवान् तन्माह सौमी विस्फारयन्तम् धनुरप्रमेयम् अवेहि मा मज्जनिशाचरेन्द्रे न वानना तम् प्रतियोद्धुमर्हसि स तस्य वाच्यम् प्रतिपूर्णघोषम् जयशब्दमुग्रम् च निशम्य राजा आसाद्य तौ मित्रिमुपस्थितम् रोषान्वितं वाचमुवाच रक्षे दिश्यासि मे राघवदृष्टिमार्गम् प्राप्तु प्राप्तुं दयामि विपरीत बुद्धि अस्मिन् चरणे याससि मृत्युलोकम् संसाध्यमानो मम बाणजालये तम् आहसतो मेत्रीविस्मय अवीश, सौमीत्रि अविस्मय नो गर्जन्तम्भृत्तये शिताग्रदष्टम् पाचन्द गर्जन्ति महाप्रभव विकत्थते पापकृतां वरिष्ठे जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमम् च अवस्थितोऽहं चरचापपाणि आगच्छं भोगविकथनेन स एवमुक्ते कुपित रक्षोधिपश्च सप्तशरान्तु लक्ष्मणैः काञ्चन चित्रपुङ्खैः चिच्छेदबाण्डे निशिताग्रधारैः तान् प्रेक्ष्यमाणे सहसा निवृत्तान् निकृत्त भोगान् निवपन्न केन्द्राम् लङ्केश्वरे क्रोधवशम् जगाम ससर्ज चान्यशितान् पुषकान् सबाणवशम् तु अवश्य तीव्रम् रामानुजकामुकसम्प्रयुक्तम् क्षुरार्धचन्द्रोत्तमकर्णिभल्लै शराश्चिच्छेदनचक्षुभे च मोघानि पश्यन् त्रिदशादिराज विसि स्मि लक्ष्मणलाघबेन पुनश्च बान्नान्निशितान् बहेन्द्रतुल्यो शनि भीमवेगां चापे जलनप्रकाशान् स्वसज रक्षोऽधिपतेर्वधाय स तां प्रचिच्छे दहिराक्षसेन्द्रे शिताञ्चरान् लक्ष्मणमाजगहने शरेण कालाग्निशमप्रभेण स्वयम्भुदत्तेन ललाटदेशे स लक्ष्मणो रावणसायकार्त चालचापं शिथिलं प्रगृह्य पुनश्च सोन्यां प्रतिलभ्य कृच्छ चिच्छेद चापं त्रिदशेन्द्र शत्रु निकृत्त चापं त्रिभिराजघानाणे तदा दाश्रतीशिताग्री स सायकार्तो विचार राजा कृच्छ्राच्च जग्रहशक्तिं समुग्रशक्ति स्वयं भूदत्तां युधिदेवशत्रु स तां सरुमानरसन्निकाशां वित्रासनां संयति वानर वानराणां चिक्षेपशक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षस रानाथ तामापतन्तीं भरतानु ज्योत्रै जघान बाता कल तथा तीशक्तिशरथे स शक्ति, शक्ति, शक्ति सामहत जज्ज्वाल भूमो सरघु प्रवीरे तम विह्वल तम सहसा जग्रहराज तरसा भूयाभ्या हेम्वान्द्र मेरू सह मरी शक्यं भुजभ्या न शको भरतानुजहे शक्त ब्रम्या सौमित्री ताड़ि स्तना विष्णुर मीम सभागे आत्मा प्रत्यनुस्मर तथोध नवदर्प्नम सौमित्री दैव तम पीड़यता न प्रभुल्लङ्घने भवेत् तथा क्रुद्ध वायुसुतो रावणं तमभि द्रवेत् अजघानो वज्रकल्पेन ना मुष्टिन तेन मुष्टिप्रहारेण रावणो राक्षसेश्वर हे जानुभ्या मगमद्भूमौ चाले च पपात च पपात रुधिरम्बु विघूर्णमानो निश्चेतो रथोपस्थयोपाविशत् विसन्यो मूर्छितश्चासीन् न च स्थानं समालभयत् विसन्यं रावणं दृष्ट समरे भीमविक्रमम् ऋषयो वानराश्चैव नेरुदेव च सासुरः हनुमान लक्ष्मणम् रावणार्जितम् आनय राघवाभ्यासम् बाहुभ्याम् परिगृह्यतम् वायुः सोनो सुरत्वेन भक्त्या परमया च सह चतुर्णामप्यकम्प्योऽपि लघुत्वम् अगमत्कपे तं समुत्तु ज्यसा शक्ति रावणस्य रथे तस्मिन् स्थानं पुनरुपागमयत् रावणोऽपि महतेजाय प्राप्यं सौन्यां महवे आददे निशितान् बाणान् जग्राह च महद्धनुः आश्वस्तश्च विशल्यश्च लक्ष्मण शत्रुसूदन विष्णुर्भागं ममी मांस्य आत्मानं पत्यनुस्मरन् निपातित महावीराम् वानराणाम्बचमम् राघवस्तूरणे दृष्ट्वा रावणम् समभिद्रवेत् अथैनम् मनु सङ्क्रम्य हनुमान् वाक्यम् अब्रवीत् मम पृष्ठम् समारुह्य राक्षसम् शास्तुमर्हसि विष्णुर्यथा गुरुत्मन्तम् आरुह्यामरवैरिणम् स राघवो वाक्यम् वायुपुत्रेण भाषितम् अथारुरोह सहसा हनुमन्तं कपिं रथस्थं रावणं सङ्ख्ये ददर्शे मनुजाधिपहे सम्मालोक्य महतेजा प्रदुद्राव स वैरोचनं वैरोचनम् विवक्रुद्धो विष्णुरभ्युद्यतायुधे जयशब्दम् अकरोत् तीव्रम् वज्रनिष्ठेशनिश्वरम् गिरा गम्भीर रामो राक्षसेन्द्रम् उवाच तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियशम् पर नु गत्वा मोक्षम् वाप्स्य यदेन्द्र व स्वभास्कर स्वयं गमिष्यसि तं दशधा दिशो वा तथापि मे नाद्यगतो विमोक्षसे यच्चैष शक्या नेतस्त्वद्य गच्छन् विषादं स साभ्यपेत्य स एष रक्षोरणज मृत्यु स पुत्रपुत्रस्य तवाद्य युद्धे एतेन चात्यद्भुतदर्शनानि चरे जनस्थानकृतालयानि चतुर्दशान्यारायुधानि रक्षसहस्राणि निशोधितानि राघवस्य एव च श्रुत्वा राक्षसेन्द्रो महाबलः वायुपुत्रं महावेगम् वहन्तं राघवमरणे क्रोषेण महताविष्ट पूर्ववैरं मनुस्मरम् अजघन शर दीप्तैः काल नलशिखोपमयै राक्षसे नाहवेतस्य तर्ष्य, ताडितस्यापि साहायकै स्वभावतेजो युक्तस्य भूय तेजोऽभ्यवर्धत ततो रामो महतेजाय रावणेन कृतव्रणम् दृष्ट्वा प्रवकशार्दूलम् क्रोधस्य वचने तस्याभि सङ्क्रम्य रथम् स चक्रम् शाश्वध्वजच्छत्रमः पताकम् सारथिम् तनिशूलखड्गम् राम प्रचिच्छेदशितैः शिराग्रैः अथेन्द्रशत्रुम् तरसा जघान बाणेन वज्राशनिसन्निधेन भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवान् निवेन्द्र यो वज्रपाता शनसन्निपातः न चक्षुभेनापि चचाल राजा स रामबाणाभियतो भृशात् चाल चापं च मुमोच वीरे तं विह्वलन्तं प्रथमीक्ष रामे स्वमाददे दीप्तमथार्धचन्द्रम् रीट चिच्छेदिपति महात्मा तम निर्विशाषी विशसन्नीकाशम चाताचिशं सूर्य प्रकाशम ग्रिय किूट उचरा भो युधिराक्षसेन्द्र कृतम तवया कर्म महेसुम हत प्रवीरश्च कुतस्य अहम् तस्मात् परि श्रान्त इति व्यवस्य न तां शरीर्मृत्युवशम् नयामि प्रयाहि जानामिरणातितस्थम् प्रविश रात्रिञ्च राजलङ्काम् आश्वस्स निर्या इतरथी च धन्वी तदा बलम् स एव मुक्तो हत दर्पहर्षो निकृत चाप सता च शरार्दितो भग्नमह किरीटो विवेश लङ्कान्थ सास्मराजा तस्मिन् प्रविष्टे महाबले दानवदेव शत्रौ हरिन्विचल्यान्थ लक्ष्मणेन चकार परमाह वाग्रेः तस्मिन् प्रभग्ने त्रिदशेन्द्र क्षेत्रौ सुरासुरा भूतगणादि च ससागर महोरगा च तथैव भूम्यम्बुचर प्रदृष्ट इत्याख्ये श्रीमद् रामायणे वाल्मीकि आदिकाव्ययुद्धकाण्डे एकोनषष्टितमः सर्गः श्री सीतारामचन्द्रार्पणमास्तु